देवी सुरेश्वरी भगवति गङ्गे त्रिभुवनतारिणी तरलतरङ्गे शङ्करमौलिनिवासिनि विमले मम मतिरासां तव पदकमले भागीरथि सुखदायिनि मात तव जलमसिमानिगमे ख्यात नाहं जाने तव मसीमानं ताशि कृपामयि मामज्ञानम् हरिपदपाद तरङ्गि निगङ्गे हिमविधुमुक्ताधवल तरङ्गे दूरीकुरु मम दोस्मितिभारं कुरु कृपया भवसागर भवसागरपारम् तव जलमलम्बेन निपीतं परमपदं खलु तेन गृहीतं मार्तङ्गे त्वयौ द्रष्टुं नयमशक्त पतितोद्धारिणी जाह्नवि गङ्गे फलितगिरिवरमण्डितभङ्गे भीष्मजननि खलु मुनिवरकर्णे पतित निवारिणी त्रिभुवन धन अल्पलतामिव फलदां लोके प्रणमतिवस्त्वं न पतति शोके पारावारविहारिणी गङ्गे विबुधवधू कृततरलापाङ्गे तव कृपजाते त्रोतस्नात् पुनरपि जठरे सोपिन सोऽपि न जात नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनिमहिमोतोे अरिलसदङ्गे पुण्यतरङ्गे जय जय जाह्नवी करुणापाङ्गे ुटम राजतचरणे सुखदे शुभदे सेवकचरणे रोगं शोकं पापं तापं, हर मे भगवति कुमति कलापम् सारे वसुधा तमसि गतिर्मम खलु संसारे अलकानन्दे परमानन्दे कुरुमयि करुणां कातर वन्दे तव तटनिकटे यस्य शिवास खलु वै कुण्ठे हतीरे कमथकुबीर किं वा तीरे शरटचीर अथ ग व्युतो सपचोदीरो न पुनर्दूरे निपति कुलीन पिमुनि वमपि मुनिवरकर्णे गङ्गास्तवमिममलं नित्यं पठति नरोय जयति सत्यम् एषां हृदये गंगाभक्ति भक्ति एषां भवति सदा सुखमोक्ति मधुरमनोहर पञ्जटिकाभि परमानन्दकलितलललललललललललललललललललललिताभि गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विदितमुदारं शङ्करसेवकशङ्कररचितम् पठतु विषयिदमितसमाप्तं देवी सुरेश्वरि भगवति गङ्गे त्रिभुवनतारिणि तरलतरङ्गे शङ्करमौलिनिवासिनि विमले मम मतिरासां तव पदकमले मम मतिरासां तव पद कमले मम मतिरासां तव पद